विष्णुस्तोत्राणि अच्युतानन्द गोविन्द नामोच्चारणभेषजात् नश्यन्ति सकलारोगाः सत्यं सत्यं वदाम्यहम् अच्युतानन्द गोविन्द विष्णो नारायणामृत प्रोगान्मे नाशया शेषाम् आशु धन्वन्तरे अच्युतानन्दगोविन्द विष्णो धन्वन्तरे हरे वासुदेवाखिलानस्य रोगान्नाशय नाशय अच्युतानन्दगोविन्द सच्चिदानन्दशाश्वत मच्चेतो रमतां नित्यं त्वच्चारु चरणाम्बुजे यज्ञेशाच्युतगोविन्द माधवानन्तकेशव कृष्णविष्णो हृषि केश वासुदेवनमुस्तु ते हरे राम हरे राम राम राम हरे हरे हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे रामाय रामभद्राय रामचन्द्राय वेधसे रघुनाथा नाथा सीताया पतए नम